रोचत तस्मै देवा प्रायश्चेत्यमै तस्मागेतामस्या तस्मागेतान्दश र्षभामालभेदामुत्यग्निश्वन् ब्रह्मवर्चन्द्रह्मवर्चस्येव भवति वसन्ता प्रातस्त्री ललामाना भेदग्रीष्मे मध्यं दिने त्रिंश्रिपृष्ठान् शरद्यपराह्णे त्रिंश्रिवारान्त्रीणि वादित्यस्य ते जागुंसि वसन्ता प्राग्रीष्मे मध्यं दिने शरद्यपराह्णे यावन्ते म ते जागुंसि धान्येवा वरुन्धे त्रयस्त्रया लभ्यन्ते अभिपूर्वमेवास्मिन् ते जोदधा न्ते संवत्सरो वै ब्रह्मवर्चसस्य प्रता संवत्सर एवास्मै ब्रह्मवर्चसम् प्रयच्छति ब्रह्मवर्जस्येव भवति संवत्सरस्य परस्ता जापत्यङ्क्रमालभेद प्रजापतिः सर्वा देवता देवता स्वेव प्रतिष्ठति यदि विभीया दुष्टमिमा भविष्यामेति सोमा पौष्ण्यग्निष्याम मालभेद सौम्या मे पौष्णा पशुपस्मयैवास्मै देवतया पशुभ्यस्पचं करोति न दुश्चर्मा भवति देवाश्च मेयमश्चास्मिं लोके दश यमो देवानामिन्द्रियम् वीर्यमयुमधरद्यमस्य यमत्वं ते देवानमन्यस्मै प्रजापतिमुपाधाभन् प्रजापतिधात्मन मुक्षवशौ निरमिदते देवा वै वरुणे वशामालभन्तैन्द्रमुक्षाणं तम् वरुणेनैव स्येन्द्रियमव्यञ्जकयो भ्रादुर्व्यहांस्या स्पर्धमाना वेष्टा वरुणे भाषामानभेदैन्द्रणं वरुणेनैव ृत्रश्चेलावमुदायन्ता वैदेक्यो भवन्तासामषभो जघनेनो दैत्यमिन्द्रो मन्यतयो वा इममानभयदमुच्यतास्मात् पाप्ति सायङ्कृष्णग्रीममानभयैन्द्रमृषभन्तस्याग्निदेवोपशतष्टोषा वृत्तस्य भोगानप्यदहैन्द्रेण न्द्रियमात्मन्न धत्तयः पाप्मना गृहीतस्या ज्ञेयं कृष्णग्रीममानभे जैन्द्रवृणभमग्निरेणास्य स्वेन भागधे येनोपसदः पाप्मानमविदहत्यैन्द्रेणेन्द्रियमात्मन्धत्ते मुच्यते पाप्मना भवत्येवद्या वा पृथिव्यां ोगपलुद्धो स्मोपधावे येन प्रतिष्ठाङ्गमयत प्रत्येपतिष्ठति ये ये पर्यारिणे भवति परिहारे वश्चेतस्य राष्ट्रयोजोगवरुद्धः समृद्धे वायव्यम् वत्समानभेदवायुर्वानयोर्वत्स इमेवा एतस्मै लोतापशुष्काविडपशुष्का सैषजोगपद्धो वायिमेव स्तेन भागधे नोपधावधिषगेवा स्वायिमान् लोकानपिषम्प्रदापयधिप्रास्मायिमे लोकास्तुवन्ति भुञ्जत्तेनम् बिडुपतिष्ठते इन्द्रबलस्य विलमपो नासयमुत्तमः पशुराशेत्तं पृष्ठं प्रति सङ्गृह्यो दक्षिदत्तगं सहस्रं पशुवो नोदायान् सर्वोन्नतो भवत्यः पशुकामस्यात्स एतमेन्द्रमुन्नतमानभेदेन्द्रमेव स्वेन भागधय नोपधापति पशोनवरुन्ध्य यदा सहस्रं पशून् प्राप्लभेदेतस्मिन् वैतत् सहस्रमभ्यतिष्ठक्तस्मादेश वा मनः समे पशुभ्य द्या एव प्रजातेभ्यप्रतिष्ठान्तं पशून् प्राप्तमित्याह अहोरात्रा सहस्रकं सम्पाद्यालभेत पशवो वा अहोरात्राणि पशुमेव प्रजातान् ष्ठाङ्गमयत्योषधेभ्यो मेहगमालभेद प्रजागामवोषध यो माने प्रजायै परिबाधन्ते योऽ प्रजा एतं प्रजान्त विन्दत ओषधयः खलु मागेतस्यै सोगमपिभ्यन्ति या मेहद्भवत्योषधे देवापधावधितामेवास्मै स्वाद्योने प्रजान्त जनयन्ति विन्दते प्रजावापो वावो प्नोदीन्द्रं खलु वाघेन्द्रिश एव शाक्तद्वापदीन्द्रियं साक्षादेवस्य सोमपीठो योगा मनः सन्नादिहात् पुरुषात् स्वमन्नपिग्नी एवधे ै स्वामबी प्रयच्छो भवति पुनच्छृष्टै भक्ते ब्राह्मणस्मत्यन्तोपरमानभेदाभि तस्मादेवै न जगात्रिमाक्षरितो पराभवतिक्षुदपविर्वागे लक्ष्मी यत्तो परः समध्यै स्वायोपभवतिलग्रो वै स्ो वज्रमेवास्मै प्रहरतिशमयम् बलिश्रिणा देवेन वैभेजगोभिनत् देवैनम् हस्पत्यगुंस पृष्ठमानभेद ग्रामकामो यः कामयेत पृष्ठगुंसमानागच्छ्यामिति बृहस्पतिमेव स्वेन भागध येनोपधावस देवैनम् पृष्ठगुंसमानाना ग्राम्ये भवति भवति पारृहस्पत्योक्ये च देवतयासमध्ये पौष्णज्ञश्याममानभेदान्न कामाण्डम्बै भूषाभूषणमेव स्वेन धामेव स्मान्नं प्रयच्छत्यन्नाद एव भवति श्यामो भवत्येतद्वान्नस्तरूपकं समृद्धे मारुतं वृष्टिमानभेतान्न कामोऽ मरुतो मरुत एव स्मेन भागधेमोऽपधामदिषगेव स्मान्नं प्रयच्छन्त्यन्नाद एव भवति प्रत्युद्भवत्येतद्वान्नस्तरूपकं समृद्ध्या इन्द्रमरुणमानभेदेन्द्रियकामैन्द्रमेव स्पेन ै प्रसवानामीशेषाकथे सगेवास्मै शनिं प्रसुवस्मै प्रजा भवन्त्यस्तो भवति सा मित्रोषे ेवैश्वदेवम् बहुरूपमान भेदा कामो वैश्वदेवं वान्नम् विस्मानेव देवान् स्वेन भागधे येनोपधावस्मान्नम् प्रयच्छन्त्यम् नादेव भवति बहुरूप भवति बहु रूपा ग्यन्न कुन्तमध्ये वैश्वदेवम् बहुरूपमाण भेद ग्राम कामो वैश्वदेवा वैधजाता विष्मानेव देवान् स्मै जातान् प्रयच्छन्ति ग्राम्ये भवति बहुलोको भवति बहुदे भक्त्यो मध्ये प्राजापत्यन्तो परमानभेदयस्यानाज्ञातमि भजो गामये प्राजापत्यो वे प्रजापति खलु वेदस्तवेदयस्यानाज्ञातमि भज्यो तस्मात् श्रामान्मुञ्चलितो भवति प्राजापत्यो ह्येष ट्कारवेगाय क्रिये शिरोक्षि दत्तश्रेरसः पराप दत्तम् बृहस्पतिरुपागृह्णा सा पृष्ठावशाफभ्योद्विधेयः परापदत्तम् मित्रावरुणामुपागृह्णे कागुंसाद्य लोपावशाफभ्यस्त्रेयः परापदत्तम् विश्वे देवा उपागृह्णान् सा वहु लोपावशाफभ्यश्च तच्छः परापधत्स पृथिवीम् प्रापिषत्तम् बृहस्पतिरभ्यगृह्णादस्त्वेव ृष्ठस्मिन् ब्रह्मवर्त्यछन्दे ब्रह्मवर्त्यस्येव भवति छन्दसाम्बायद्वसार ैत्रावरुणेन्द्रियोपामानभेदवृष्टिकामो मैत्रं वार्वारुणे रात्रिरहोरात्राभ्यां खलु वै पद्यत्रावरुणा वेण भागे जेनोपधावेव वे स्माहोरात्राभ्याम् पर्जन्यं वर्षयतच्छन्दरतो खलु वै वृष्टिच्छन्दसा मे ृष्टिमवरुन्धे मेत्रावरुणेन्द्रिरोपाद प्रजागाम मैत्रं वाहर्वारुणे रात्रिरहो रात्राभ्या फलुवे प्रजा प्रजायन्ते मित्रावरुणा वेवस्मै नेनापथापजितामेव स्माहोरात्राभ्याम् प्रजाम् प्रजनयदच्छन्दम् वाय प्रसादैव खलु वै प्रजा, प्रजा, प्रजा छन्ददा मे वरसे नरसं भ्रजामवरुन्धे भैश्वदेवीं बहुरोपा मानभेतान्न गामो भैश्वदेवं वा अन्नं विश्वामेव देवान् स्वेन भागधे येनोपधामजितयेवास्मा अन्नं प्रयच्छन् जन्नाथ एव भवसां वासार खलु वा अन्नञ्च मे वरसे नरसमन्नमवरुन्धे भैष्वदेवीं बहुरोपा श्वदेवा वैधजाता विश्वानेव देवान् स्वेन भागधे येनोपधामदितगेवास्मै स जातान् प्रेच्छन्ति ग्राम्येव भवति छन्दधाम्बेन स जातानवरुन्धेक्ष भजमानभेद्रह्मत्य स गामो बृहस्पतिमे न भागधे येनोपधामधि सगेवः ब्रह्मवर्चस्येव भवन्ध्रे रौद्रे गुम्भोहि मानभेताभिचरन् दुर्गमेव स्वेन भागे जेनापधापति तस्मागेवै नमामिष्टदि ताजकात्रिमाच्च विरोहे भवति रौद्रे येषा देव समर्ध्यैष्ठोयो यम् बलयश्नात् देवेन वैभेजगयुद्धोऽभिरद्देवनम् त्योऽनव्यरोचत तस्मै देवाः प्रायश्चित्य मयेच्छन्दस्मागेतागुम् सौरे यश्वेताम् भजामालभन्ततगेवास्मिन् भुजपदधर्यो ब्रह्मवत् कथगाभस्यागेतागुम्सौरेज्वेताम् भजामालभेदागमेवादित्यग्रस्वेपधास्मिन् ब्रह्मवत् कथं दधादि ब्रह्मवत्यश्चैव भवति ैव भ्रातुहयित्वा ब्रह्मणाभ्रुजन्ये भवत्यं समर्थ्येश्वस्मै ेवैनं वैष्णवं वा यज्ञो नापनमेत्येव स्मेन भागधे येनापधापदिशयेन यज्ञम् प्रयच्छत्युपै नै यज्ञो नैष्णव स्वेश देव्यै स्वाष्ट्रमैवमालभेदपशुगा हस्तष्टावे पशूनां मिथुना ेन भागधे येनोपधावश एवास्मै ये पुशोन्मिथुनान् प्रजनयति प्रजाहि वा येतस्मिन् प्रसभः प्रविष्टाधेशुभान् सन्वनवः साक्षादेव प्रजां वशोनवरुन्धे मैत्रज्ञ श्वेतमानभेदसंग्रामे संयत्ते समयकामो मित्रमेव भागधे येनोपधाव ये दिश एवं मित्रेण संनयति यत्ते मैनम् प्राजाभक्त्यम् कृष्णमालभेन वृष्ट्या प्रजापतिर्वे वृष्ट्यायीश प्रजापतिमेव स्मेन भागधे येनापधापति स एवास्मै पर्जन्यम् वर्षयति कृष्णो भवत्तेजद्वे वृष्ट्ये रूपकम् रूपेणैव वृष्टिमवरुन्धे सबलो भवति विद्युतमेवास्मै जनयित्वा वर्षयत्य वा भवति वृष्टिमेवास्मै नियच्छति अरुणगं सुषुभानमन्नाद्यन्नोपानमत्सरे वारुणे कृष्णां वशामपश्यत्तागस्वायी देवतायामन्नाद्यपानमद्यमलमन्नाद्यसन्तमन्नाद्यन्नोपणमेत्सगेतां वारुणे कृष्णाम् वशामालभेद वरुणमेव स्फेनभा स्वान् प्रयच्छत्यन्नादेव भवति कृष्णा भवति वारुणे ेवासमर्थे मैत्रज्ञ श्वेतमानभेदवारुणम् विष्टमपाञ्चौषधीनाञ्च सन्धावन्नकामो मैत्रे वाुणेरापोपाञ्च खलु वाजीवामो मित्रावरुणा वेद स्मेनोपधापतिता देवायच्छलो नादगेव ैत्रज्ञ श्वेतमानभेदष्टं च गामयामित्रेण साक्षा देवेण देवावे पुष्पिन्दामिन्दन्तां मिथुनेवन्दस्याधयन्तामश्विनावब्रूता ेषामे तस्याम् वदध्वनिश्विना देवा भवद्यः पुष्टिकामस्याेन भागधे येनोपधावेवष्टिम् धर्मः पुष्यज प्रजया पशुभिः लाममानभेदयोग्रानः सोमम् पिबाधेदश्विनो वै देवानाम सोमपामपीठम् प्राप्नुतामश्विना वेदस्तदेवता योग्रानः सोमम् पिबाधत्यश्विना वेदस्ते न भागेनोपधामपितास्मै सोमपीठम् प्रयच्छ लघुपै नोमपीठो नूम्रिवाणमेवास्म धादि वायव्यङ्गो मृगमानभेमजग् समभिषगुं सूतावां वा गृच्छदयमजग्भिवागुं समभिजगुं सन्दिनेशग्राम्यप्रसुर्नारण्यो यद्गो मृगो नेमेषग्रामे नारण्येयमजग्भिवागुं समभिजगुं सन्ति वायुर्वै देवाना परित्रं भारमेव स्पेन भागधेजेनोपधामधिसेवै एतस्मै व्युच्छन्ते प्युच्छति तमःप्पात्मानम् प्रविशति यस्याो नाविर्भवति सौर्यम् बहुरूपमानभेदामेव स एवास्मात्तमप्पात्मानमपहन्ति प्रवेच्यस्मै व्युच्छन्ते व्युच्छत्य पदमप् आत्मानगम्हते इन्द्रम् वा विश्वन्द्र मरुतो यद्धवो दिवो या हरेष्मिन्द्रकम् सहमगम् हवामहेगुम् वामुचकम् सुकृतम् दे व्यञ्जनम् अग्निम् यत्रम् वरुणकम् सातके भगव्या वातः नः परि ज्वापत्प्रवातो अवाम् आयत्र मन्मरतो वावशालाः शिरशेकम् भानुभिस्सम् मिविक्षिणेते रक्ष्मभिस्तभिस्तु खादयः वा श्रीमन्त युष्मिनो अभीरवो विद्रे प्रियस्य मारुदस्य धाम्नः रुद्रियाभिः समिन्द्रामरुद्भिर्यज्ञे समादित्तेर्ना वरुणा जज्ञपद यथा नित्यापदभिः सम्बभो वन् मरुद्भिरुद्राः समजानताभिः एवातृणामन्ना विश्वे देवाः समनसो भवन्तोद्यस्य समतो रण्वानरो निश्चेद्य जन्तवः भव्यामानुषाणाम् उतद्यस्य सुन्दमादित्या सोभवता वृणयन्तः आवार्पागेषु मगर्वश्चिद्यापरिभो वित्तराधुपक्षयति वृद्धवयाः सुवीरः न चष्टाम् आद्यादित्यानाम् भवति प्रणेतौ धारयन्त आदित्या सोदृवा विश्वस्य भुवनस्य गोपाः दीर्घाधियोक्षमाणा सुवानुश्रियमाना ऋणानि ृदद्यो क्षत्रियागम् अवहादित्यामहे स्मृणे कालम् अभिष्टये दक्षिणा विचकितेन सव्यालप्रातेनमादित्या नश्चा ्या चिद्युष्माचेतो अभयम् ज्योतिरस्या आदित्या नामवसा नूतनेन स क्षेम हिशर्म नासन्दमेन अनागास्त्वे अतिदित्वे दुरास इमै यै्यन्तध दुःश्रोषमाणाः इमम् मे तत्वाया सत्त्वायामि ब्रह्मणा वन्दमानस्तदानो हविः अहेटमानो वरुणेहोभ्युदगुम् समानाय प्रमोषे प्रजापय प्रजा असृजगताः सृष्टा इन्द्राग्ने अपागोहतांसो जायत् प्रजापजरिन्द्राग्ने वै मे प्रजा अपा भुक्षताग्नमेकादश कपालमपश्रप्तवपत्तामस्मै प्रजाप्रासाधयतामिन्द्राग्नेवादेशश्च प्रजामपगूहतो योलम् प्रजा एशन् प्रजान्न विन्दत ऐन्द्राग्नमेकादशकपालन् प्रजागामयन्द्राग्नि एवस्मै न भागधे येनोपधावधिता वेदास्मै प्रजाम् प्रसाधयतो विन्दते प्रजामेन्द्रामेकादश स्पर्धमानः क्षेत्रे भाषजाते शुवेन्द्राग्नि एवस्वेन भागधे येनोपधावजिताभ्या मे वेन्द्रियम् वेर्यम् भ्रातुम् यस्सन्देमिमात्मनः भ्रातुम् वेण जयते भवा यस्मादिन्द्रियं वीर्यं ग्रामजयस्सङ्ग्रामप्रया जयैन्द्राज्ञादशगपाले सङ्ग्रामो वा प्रयास्यन्निन्द्राग्निवस्तेनवास्मिन् वीर्यं धत्तः सहेन्द्रियेण वीर्येणप्रया जयदिनगम् सङ्ग्रामम् विवाहे चेन्द्रियेण वीर्येण सङ्ग्रामम् जयत्यये दशकमानन्दवेत् सङ्ग्रामम् जित्वेन्द्राग्नि एवस्तेन भागधे येनोपधावेवास्मिन् वीर्यम् धनेन्द्रियेण वीर्येण व्यभ्यते भवानेतस्मादिन्द्रियम् वीर्यं ग्रामदियये जनदा मेन्द्राज्ञमेकादशकमानन्दर्भवेत् जनता मेन्दिन्द्राग्नि एवस्पेन भागधे येनोपधावेवास्मिन् यं वीर्यम् धत्तस्थेन्द्रियेण वीर्येण जनता प्रधाता भूषणमेव प्रयच्छति क्षैत्रभत्यम् जलं निर्ववेत् जनता मागत्येयम् वै क्षेत्रस्य प्रजनस्यामेव प्रजत्यैन्द्राज्ञमेकादश कपालोष्टान् यामे प्रतिष्ठांद्रिय नेता धत्ते ग्नये पसि कृते पुरो नासमष्टागमानङ्गोदर्ष पूर्णमास याजी सन्नमाभास्या पूर्णमाजी वाजिपादयेसगाजी सन्नमाभास्याम् वा पूर्णमासीं वाजिपादयत्यमेवस्मेन भागधेनोपधापदि पन्थामपि नयत्य दक्षिणामीक्ये रतमुयाग् व्रतपदये प्रोडासमष्टागपानन्यर्वेद्याजरे व्रतपदिज्ञस्वेन भागधे जैनालम्भयव्रत्यभवत्यज्ञये रक्षोग्नेष्टागपागुं रक्षागं भागधे जैनापधामधिसेव निषिता रक्षागं प्रेरते रक्षास्कृत्याग्रे रुद्रवदे पुरोष्टाकपालन् निर्वपेदभिजरन्नेदास्य घोरातनोर्युद्रस्तस्मा एव त्यग्रजे सुरभिमते पुरोणाचमष्टाकपाले यस्य प्रमेजे वास्मैकरो यूजे गन्धस्यापहत्या पुरोणाचमष्टाकपालन् निर्भवेत् सङ्ग्रामे संयत्ते भागधे नैव समये अभिनिर्दिशति यमवदेशाम् युद्ध्यन्ति जीवतिषयम् परेषाम् प्रसमीयते जय सङ्ग्राममभिवागेश एतानुच्यति येषाम् पूर्वापरान् पञ्चः प्रमीयन्ते पुरुषा हुवर्यस्य प्रेतभाग्नये कामवदे पुनो नासमष्टाकपालन् निर्वपे भागधेयेनैवैनकं शमय जयैषाम् पुरायुषोपरः प्रमेय देभेतस्य गृहानुच्य गृहान्तः प्रज्ञोनाथमष्टागवानन्दवेत् भागेनैवैनकंसमयदिनास्यापरम् गृहान्तः जे अग्नजे कामाय पुरोणाचमष्टाकपाल्यङ्गामो नोपनमेदज्ञमेव कामज्ञस्पेन भागधेनापधापदिष एव समर्थयत्वेन पुरोणाचमष्टागमान निर्मभे स्वर्भमानः क्षेत्रे वाग्निमेव यमिच्छागधे येनापधावधिते नैवेन्द्रियं वीर्यं भ्रातृ जयथेग् जयष्ठाय पराचमष्टाकपालं निर्ममेन भागधे जेनापधामधिमा रक्षाकं मष्टाकपालं निर्वमेत्य सर्वमायज्ञमेवायुष्पन्धज्ञस्मेन भागधे येनापधामदि यमायुवे त्यक् जातवेदेव पुरोणासमष्टागमानम् भोजिकामोक्यमेव जातवेदस्मै नैनोपधापनिष एवमय विभाणासमष्टागमानम् निर्वभे दृष्कामोक्ष्यमेव रुपन्त तस्मै न भागधे यैनापधाप निषये वा तेजस्पदे पुरोनाचमष्टाकपालम् निर्वपेत् तेजस्कामाप्निमेव तेजस्वन्धज्ञस्वेन भागधे येनापधावति स एवास्ति तेजोदधाति तेजस्वेव भवत्यज्ञये सा हन्त्यरोना चमष्टाकपालम् निर्वपेत् शीघ्रमाणाग्निमेव सा हन्त्यज्ञस्वेन भागधे येनोपधावति अर्जेन्नपदे पुरोडा च भष्टागमानन्यर्मवेद्यः कामजेतान्नवान् स्वामि त्यग्निमेवान्नवन्तज्ञस्वेन भागधे येनोपधापदिश एव वन्नवन्तङ्करोत्यन्नवानेव भवत्यज्ञ नादाय पुरोडाय भष्टागमान निर्मवेद्यः कामजेतान्नादस्यामित्यज्ञमेवान् नादज्ञस्वेन भागधे येनोपधापतिष एव वन्नादङ्करो भवत्यज्ञरोणाशमष्टाकपानम् निर्ममेः कामयेतान्नपदस्यामिन् यज्ञमेवान्नपलिस्मै न भागधे मास एव भवत्यग् पवमानाय पुरोणाशमष्टाकपान निर्ममे लग्नेव ज्यो गामया वेय लग्नजे पवमानाय निर्वपति प्राणमेवास्मि स्मिन्तेन तथा लियदेषु चेवान्तेन तथाभे चक्षुष्टाय निर्मणमेवास्मिन् तेन तथा लियदग्गये पावकायवाचमेवास्मिन् तेन तथा लियदग्गयेषु ये चक्षुरे वा स्मिन्तेन तथा भवति पुरोडाश ग्गे पुत्रपदे पुरोडाशमट्टाकपालं गर्वय पुत्रिणे पुरोडाशमेकादशकपालं प्रजाकामाग्निरेवास्मै प्रजां प्रणयीन्द्रयच्छत्यग् रसवदे चीरे क्षादेव सुमदे पुरोणासुमष्टाकपालं निर्पभे यः कामये तव सुमान् स्वामित्यज्ञमेव वसुमन्तोपधापजयैनं वसुमन्तं करो भवत्यज्ञा जरोणासमष्टाकपालं निर्पभेत् सङ्ग्रामे सञ्जस्तेवाजम्बा केशयः सङ्ग्रामे भागो निर्दिष्टभागोन्यस्तौ सम्भवन्तो यजमानमपि सम्भवधस्तगे ष्टागमान यस्याज्ञहोत्र इत्याहस्तत्तथा न कार्यम् यद्भागधेयमभि पूर्वबुद्धियते ृष्टुभाजगत्या देवेभ्यो हव्यम् वहतु प्रजालन्योऽभिदेवैनग्नस्वाद्योयत्येषमावसो हृज्योतिष्वास्य पदापरिदर्शयतिपदापरिदण्डदेवावरुन्धे जगपालन्यम् सर्वं रेखा यद्वेश्वानजगवान भवत्सरो वासरे नैवत्यपभावम् वर्णगुंहदेवारुणेनैव्यम् दक्षिणाम् पुरात्येवम् भवत्येतामेव वा एतस्या ैवैनं वरणपाशान्मुञ्चलित्यं दक्षिणा पवित्रं वै हिरण्यं पुनाद्य जाते स्मिन् नन्नाद्यथा जियजादश द्वादश कपालो जगत्यैवास्मिन् पशोन् दधान् क्षिद्यते योतरशपोर्णमासगास्याय हि लोकाय शपोर्णमासा विद्येते संवत्सरमेव प्रीनाख्यसो संवत्सरमेव पार्वतधातु सुवर्गस्य लोकस्य समष्ट्यासो देवता देवान् सुवर्गल् लोकमे दृढदेवाना ष्टाकपालेष्टाकपालवत्यष्टाक्षरागायत्रे गायत्र खलु वालन्माप्तके द्वादश कपाल वेश्वानव भवति द्वादश मासा नैवास्मेध जाता श्च वैदि मारु भवति मरुतो वै देवानाम् विषो देव विषेनैवास्मे मनुष्ठविषमवृन्धे सप्तकपाल भवति सप्तक नामै मरुतो कणशगेवास्मे जातानवरुन्धे नोच्यमानासारय विषमेवास्मानवस्मान् आदित्यञ्चलम् निर्मवेत् सङ्ग्रामोकप्रयास्यन् नियम् वादिजलस्यामेव प्रतिष्ठन्त्य वैश्वानलन् द्वाद जगपानम् निर्ववेदायतनम् गत्वा संवत्सरो वाैश्वानरस्य वत्सर खलु वै देवानामायतनमेव स्माद्वा आयतनाम् देवासुरानजगिलयद्वैश्वानलन् द्वार जगपानम् निर्वपति देवानामेवायतने यद ह्नवासरस्वरितमेवाद्यते संवत्सराय निर्ववेत् सममानय पूर्वाभिद्रुक्यसंवत्सरो वा निर्वयेष्वादः संवत्सरमेवा स्वानिर्वरुणम् परस्तादभिद्रुक्यजनैनम् वरुणा गृह्णा याव्यम् वा देह प्रतिगृह्णाति योऽभिम् प्रति गृह्णाति वयेष्वानम् वा जगमानम् निर्वभेदविम् प्रतिगृह्यम् ेढमात्रा माप्नोदयमु भयादत् प्रति गृह्णात्यष्वम् वा पुरुढम् वा वैश्वानलन्वाद जगमानन् निर्वपयतु भयादत् प्रतिगृक्षं वत्सरो वा अग्निर्वैश्वा नरसंवत्सरस्व माः स्मै प्रजा भवन्ति यो मे संवत्सरं प्रयुजन विमञ्चत्य प्रतिष्ठानो वे स भवत्यैतमेव वैष्मानलम् पुनरागत्य निर्वपेत्यमेव प्रयुङ्क्तम्भागते जै न विमञ्चते च ताम ताम् भ्रातृञ्जाय प्रविणयान् निर्वचने वा स्मये प्रहृ